मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं त्वेल्व् माकशुक्लचतुर्थीमाहात्म्यवर्णनम् श्रीगणेशाय नमः दशरथ उवाच चतुर्थ्या महिमानं च श्रुत्वा हर्षप्रवर्तते न दृप्यामि महायोगिन्नमृतादधिकं मदम् माखे शुक्लचतुर्थी या तस्यामाहात्म्यमुत्तमं वद येन जनाः सर्वे भवन्ति सुखभोगिनः वसिष्ठ उवाच माखी शुक्ला चतुर्थी तस्यां जादो विनायकः कश्यपश्य गृहे साक्षादङ्कारकयुता नृवा मुद्गल उवाच एवमुक्त्वा वसिष्ठस्थं विनायकचरित्रकं कथयाम सभो दक्ष देवान्तकवधा श्रितं श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नन्दनः पुनस्तं प्रेरयामास्रतार्थं मुनिमादराद तस्यादरं स विज्ञाय हर्षेण महदा युक्तो गाणपत्येन्द्रसप्तमः वसिष्ठ उवाच अत्र ते वर्णयिष्येहमितिहा सम्पुरातनं श्रुतश्चेत् सर्वतः पूर्णो भविष्यदि नरोत्तमः कर्णाडे भानुपुर्यां च राजा परमधार्मिकः देवविप्रातिधिप्रेप्सुर्नीत्या राज्यं चकारसः शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान् जित्वा भूमण्डलं सर्वं चक्रे सौराज्यमुत्तमं भार्यायशोवधीतस्य नाम्ना पूर्णपदिव्रता धर्मशीलारदा ददाने बभूवे तस्यापि दीर्घकालेन कुर्वदो राज्यमुत्तमम् अनावृष्टिभवं दुःखं प्राप्तं परमदारुणं सदुशौनकनामानं मुनिं सर्वार्थकोविदं ययौ दुःखनिवृत्त्यर्थं गणपत्यं वने पुराद महावनं समासाद्य तं न नाम महामुनिं साष्टाङ्गं च पुरस्तस्य कृताञ्चलिपुडो भवत उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुधः धन्यं मे जन्मकर्माद्यं येन दृष्टो भवान् मुने वदन्तमेवं राजानमुवाच शौनको मुनिः सर्वशास्त्रार्थतत्त्वज्ञोन्यस्तस्व परविभ्रमः शौनक उवाच पुराराजन्महाभागवद मां सकलं तव चेष्टिदं यद्वने कस्मादागदो दुर्गमे च मे एवं पृष्ठो मुनीन्द्रेण सोमस्तं प्रत्युवाचः हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमं सोम उवाच कर्णाडे भानुभुर्या मे वसतिर्धर्ममिच्छतः अनावृष्टिभवं दुःखं प्राप्तं तत्र महामुने धर्मेण नीतियुक्तेन मया राज्यं प्रपालितं तथापि पापयोगेन दुःखं प्राप्तं जनैः सह तत्रोपायं वदस्वत्वं स्वत्वं साक्षाद्योगीश्वरो भवान् राज्यं त्यक्त्वा वनेतेद्य शरणं चागदो नृपः श्रुत्वा तस्य वचो रम्यं तं जगाद महीपतिं शौनको मुनिशार्दूलो विनयेन समन्वितं शौनक उवाच शृणु राजन्महत्पापं तव राज्ये बभूवः तेन रोगयुधालोका वन्ध्यतादोषसंयुधाः तत्राभियन् तत्रापियन्महद्दुःखमनावृष्टिसमुद्भवं सम्प्राप्तं कारणं तत्र वदामि त्वां नृपाधम चतुर्थी संज्ञकं राजन्व्रदं नष्टं विशेषतः शौक्लं काष्णं तदर्थं त्वं यत्नयुक्तो भवधुना नो चेद्वर्षसहस्रैस्त्वं सुखं न लभसे कदा अधसर्वत्र विख्यातं तत् व्रतं कुरुमानद इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तराद सोपि संश्रुत्य विस्मितो मानसे भवत पुनः पप्रच्छभावेन शौनकं मुनिसत्तमं वद ब्रह्मन् गणेशस्य स्वरूपं शान्दिदं परं शौनक उवाच पुराहं तपसा नृपातिष्ठं स्वाश्रमे अन्तर्निष्ठस्वभावेन ब्रह्मचिन्तनतत्परः तदोकस्मान्महायोगी भृगुरस्माकमे वसः बीजभूदसमायाद आश्रमेऽनुग्रहाय मे तं दृष्ट्वा सहशोद्धाय प्रणतोऽहं महामुनिम् आसने समुपावेश्या पूजयं च कृताञ्जलिपुडं नम्रं पुरस्तस्य महात्मनः संस्थितं मां ततो दृष्ट्वा सुविनीतमुवाच सः भृगुरुवाच तादकिं योगनिष्ठस्त्वं शान्तिं प्राप्तो वदस्व मां किमिच्छसि महाभागवदतेकं ददामि तद् अस्मत्कुले महाभागभवान् साधुगुणान्वितः तेनाहं तृप्तिमायाधपूरयिष्यामि वाञ्छितं एवं ब्रुवन्दमाद्यं तं मुनिमानम्यशौनकः जगादहर्षसंयुक्तो भृगुं योगतपोनिधिं शौनक उवाच योगशान्तिप्रदं पूर्णं ब्रूहि योगं महामुने तेनाहं तृप्तिमत्यन्तं यास्यामि त्वदनुग्रहाद भृगुरुवाच योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकं तं विधानेन तेन शान्दो भविष्यसि चित्तं पञ्चविधं तादत्र चिन्ता मणिस्थितः तं ज्ञात्वा ब्रह्मभूताश्चाभवन् ब्रह्मादयः सुधा चित्तेन ज्ञायते यद्वै तत्र मोहप्रवर्तते मोहं चित्तं परित्यज्य भव चिन्तामणिस्वयं मनोवाणीमयं चित्तं मनोवाणी चित्तं जानीहि पुत्रत्वं तत्यक्त्वा सुखी भव एवमुक्त्वा गणेशस्य गणानां त्वा मनुं ददौ शौनकायमः योगी भृगुश्चान्दर्हितो भवत शौनक उवाच भृगुणैवमहं राजन् उपदिष्टो भजं परम् गणेशं योगभावेन चित्तनिग्रहणे रतः क्रमेण योगिवन्द्योऽहं जादस्तस्य महात्मनः कृपया गणराजस्य तथापि स्म भजामितं तदो मे वरदो जादो गणेशो भक्तवत्सलः गाणपत्यं चकारासौ ततः गणपो भवम् एवमुक्त्वा स राजेन्द्रं गणानां त्वा मनुं ददौ शौनको मुनिशार्दूलो विधियुक्तं विधानविद शौनकं प्रणनामाज्ञां गृहीत्वा राजसप्तमः आययौ स्वगृहे तत्र प्रधानैरभिनन्दितः नागरैः सह सोमश्च माघे शुक्लचतुर्थिका सम्प्राप्ता साधिकाले स चकारव्रतमुत्तमं ततस्तेन प्रविख्यातं कृतं भूमितले नृप शुक्लकृष्ण व्रतं च दुग्धीज व्रत चक्रुर्जना भुवि व्रताचरणपुन वृष्टिस्भूवच सर्वेर्षयुता लोका गणेशभनेता गणेशजन सोमचकार प्रेम संयु गणेश महामौल्यं नृपाध्यक्षः स्थापयामास विघ्नपं गणेशं वरदाख्यं सो सोपूजयन्नित्यमादराद पुत्रपौत्रयुतो राजा सचक्रे राज्यमुत्तमं लोकाः सर्वे सुखे मग्नारोगवन्ध्यत्ववर्जिताः स्वधर्मनिरदा नित्यमभजन् गणनायकं न गणेशसमं किञ्चिद्धारयामासुरादराद सोमश्चान्दे गणेशानं ययौ लोकसमन्वितः स्वानन्देदं प्रणम्यासौ भ्रमभूधो बभूवः यदत्ते कथितम्भूप तधान्यच्छृणुसुन्दरम् चरित्रं व्रतसम्भोदं सर्वपापप्रणाशनं कोऽप्यन्त्यजो विदर्भे वै कौण्डिन्ये नगरे वसद भानुनामा महाभाभि दुष्टकर्मपरायणः परस्त्रीलम्बडोऽत्यन्तं मद्यद्यूतरतः सदा मार्गे जनान् जफानास्सौ द्रव्यलोभीविशेषतः जीवं दृष्ट्वा दुष्टकर्मा जखान स च भूमिपकार्यहीनतया पापी ब्राह्मणानां वधे रतः इत्यादिदोषबाहुल्ययुक्तपरमदारुणः कदाचिद्दैव योगेन वने बभ्राम सों त्यजः तस्मिन् दिने समायादामाखी शौक्लीचतुर्थीका तत्रान्नजलहीनोऽयं पर्वतान्तरगो भवद न प्राप्तवान् वने किञ्चिद्दुष्टस्तेन सुदुःखितः क्षुधार्तस्तृष्णया युक्तस्तत्रैव निशिसं स्थितः प्रभादेवीमले सद्यः समुद्धाय गृहागतः तुषितः स जलं तत्र पपावत्यन्तमादराद तदोकस्मात् सुदुःखेन वमित्वा तज्जलं नृप ममा रतं गृहीत्वा दे गणेशगणपं ययुः निष्पापो ज्ञानसंयुतः सायुज्यं गणनाथस्य लेभे वै तत् प्रभावतः अज्ञानव्रतजेनैव पुण्ये ज्ञान्यजजादिजः ब्रह्मभूदो महापापी बभूवे सूर्यवंशज एतादृशी महापुण्या चतुर्थी शुक्लगामदा माकी तस्याश्च माहात्म्यम् कथितुं न भवेद एवं नानाजना भूपभ्रमभूता बभूविरे कथितुं न प्रशक्यं यच्चरित्रं तत्समुद्भवम् मा के यो महिमानं शृणोति चेद् तस्य भो राजन् सिद्धिदं सुभविष्यति ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माख शुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ओम्